नारदपुराणम् पूर्वार्थम् अध्यायम् इलवन् नारद उवाच अखो ह्यत्यद्भुतम् प्रोक्तम् त्वया भ्रातरिदम् मम स वह्निरदितिम् मुक्त्वा कथं तानदहत्क्षणाद वदादिते महासत्त्वम् परोपदेशनिरदा परोपदेशनिरदासज्जनाहि मुनीश्वराः सनक उवाच शृणुनारदमाहात्म्यं हरिभक्तिरथात्मनां हरिध्यानपरान् साधून् कः समर्थः प्रबाधितुम् हरिभक्तिपरो यत्र तत्र ब्रह्मा हरिःशिवः देवाः सिद्धा मुनीशाश्च नित्यं तिष्ठन्ति सप्तमाः हरिरास्ते महाभागहृदये शान्तचेदसां हरिनाम पराणां च किमुध्यानरदात्मनां शिवपूजारदो वापि विष्णुपूजापरोऽपि वा, वा। यत्र तिष्ठति तत्रैव लक्ष्मीः सर्वाश्च देवताः यत्र पूजापरो विष्णोर्वह्निस्तत्र न बाधते राजा वा तस्करो वापि व्याधयश्च न सन्धिः प्रेताः पि चा चा कूष्माण्डग्रहाबालग्रहास्तथा दाकिन्यो राक्षसाश्चैव न बाधन्देच्युदार्ककम् नश्यन्ति यत्र सद्भक्तो हरिलक्ष्म्यार्चने रतः जितेन्द्रियसर्वहितो धर्मकर्मपरायणः यत्र तिष्ठति तत्रैव सर्वतीर्थानि देवताः निमिषं निमिषार्थं वा यत्र तिष्ठन्ति योगिनः तत्रैव सर्वश्रेयांसि तत्तीर्थं तत्तपोवनं यन्नामोच्चारणदेव सर्वे नश्यन्त्युपद्रवाः स्तोत्रैर्वाप्यर्हणाभिर्वा किमुद्यानेन कथ्यते एवम् तेनाग्निना विप्रदग्धम् सा सुरकाननम् सा दितिर्नैव दग्धा भूद्विष्णुचक्राभिरक्षिता तदः प्रसन्नवदनः पद्मपात्रायते क्षणः प्रादुरासीत् समीपे स्या शङ्खचक्र गदाधरः ईषद्वास्य स्फुरदन्तप्रभाषितदिङ्मुखः स्पृशन् करेण पुण्येन प्राह पश्यपवल्लभाम् श्रीभगवानुवाच देवमादः प्रसन्नोऽस्मि तपसाराधितस्त्वया चिरं श्रान्तासि भद्रं ते भविष्यदिनसंशयः वरं वरय दास्यामि यत्ते मनसि रोचते मा भैर्भद्रे महाभागे ध्रुवं श्रेयो भविष्यति इत्युक्ता देवमादासा देवदेवेन चक्रिणा तुष्टावः प्रणिपत्य सर्वलोक सर्वलोकसुखावहम् अदितिरुवाच नमस्ते देवदेवेश सर्वव्यापिञ्जनार्दना सत्त्वादिगुणभेदेन लोकव्यापारकारणा नमस्ते बहुरूपायारूपाय च महात्मने सर्वैकरूपरूपाय निर्गुणाय गुणात्मने नमस्ते लोकनाथाय परमज्ञानरूपिणे सद्भक्तजनवात्सल्यशालिने मङ्गलात्मने यस्यावताररूपाणि ह्यर्चयन्ति मन्मुनीश्वराः तमादिपुरुषं देवं नमामि ह्यर्धसिद्धये श्रुतयोऽयं न नजानन्दि न जानन्ति तं नमामि जगद्धेदुम् समायम् चाप्यमायिनम् यस्यावलोकनं चित्रम् मायोपद्रवकारणं जगद्रूपम् जगद्धेदुं तं वन्दे सर्ववन्दितम् यत्पादाम्बुज किञ्चल्कसेवारक्षितमस्तकाः अवापुः परमां सिद्धिं तं वन्दे कमलाधवम् यस्य ब्रह्मादयो देवा महिमानं न वै विदुः अत्यासन्नं च भक्तानां तं वन्दे भक्तसङ्गिनं यो देवस्त्यकृतसङ्गानां चान्दानां करुणार्णवः करो दिह्यात्मनसङ्गं तं देवम् सङ्गवर्जितं यज्ञेश्वरं यज्ञकर्म यज्ञकर्मसु निष्ठितं नमामि यज्ञफलदं यज्ञकर्मप्रबोधकम् अजामिलोपि पापात्मा यन्नामोच्चारणादनु प्राप्तवान परमं धाम तं वन्दे लोकसाक्षिणम् हरिरूपी महादेवशिवरूपी जनार्दनः इति लोकस्य नेधा नमामि जगद्गुरुं ब्रह्माद्या अपि देवेश्या यन्माया पाशयन्त्रिताः न जानन्ति परं भावं तं वन्दे सर्वनायकं ह्यत्पद्मस्थो पिञ्ज्योग्यानां दूरस्त इव भासदे प्रमाणातीदसद्भावस्तं वन्दे ज्ञानसाक्षिणम् यन्मुखात् ब्राह्मणो ज्यादो बाहुभ्यां क्षत्रियोजनि पूर्वोर्वैश्यसमुत्पन्नः पद्यां शूद्रोऽभ्यजायत मनसश्चन्द्रमाजादो जादसूर्यश्च चक्षुषः मूकादग्नेर्धेन्द्रश्च प्राणाद्वायुरजायत ऋ यजुसामरूपाय सत्यस्वरगदात्मने षडङ्गरूपिणे तुभ्यं भूयो भूयो नमो नमः त्वमिन्द्रः पवनः सोमस्त्वमीशानस्त्वमन्तकः त्वमग्निर्निरुदिश्चैव वरुणस्तम् दिवाकरः देवाश्च स्थावराश्चैव पिशाचाश्चैव राक्षसाः गिरयसिद्धगन्धर्वा नद्यो भूमिश्च सागराः त्वमेव जगदामीशो यत्रासि त्वं परात्परः त्वद्रूपमखिलं देव तस्मान्नित्यं नमोऽस्तु दे सर्वज्ञभूतदेवेन्द्रविग्रह दयितेयैर्बाधितान् पुत्रान् मम पाहि जनार्दन युधि देवमादा देवं नत्वा पुनः पुनः उवाच प्राञ्जलिर्भूत्वा हर्षाश्रुक्षालितस्तनी अनु ग्राह्यास्मि या सर्वादिकारण अकण्डकाम् श्रियाम् देहि मत्सुदानाम् दिवौकशाम् अन्तर्यामिम् जगद्रूप सर्वज्ञा परमेश्वर अज्ञातम् किम् तव श्रीश किम् मामीहयसि प्रभो तथापि वक्ष्यामि यन्मे मनसि रोचते वृद्धा पुत्रास्मि देवेश दैत्येयैः परिपीडिता तान्न हिंसितुमिच्छामि यतस्तेऽपि सुधा मम ता हत्वा श्रियं देहि मत्सुदेभ्यः सुरेश्वर इत्युक्तो देवदेवेशः पुनः प्रीतिमुपागतः उवाच हर्षयन्विप्रदेवमादरमादराद श्रीभगवानुवाच प्रीतोऽस्मि देवि भद्रं ते भविष्यामि सुदोह्यहं यतः सपत्निपुत्रेषु वात्सल्यं देवि दुर्लभम् त्वया यत्कृतं स्तोत्रं तत्पठन्ति नरास्तु ये केषां संपद्वरा पुत्रा न हीयन्ते कदाचना त्वात्मजे वन्यपुत्रे वा यः समत्वेन वर्तते न तस्य पुत्रशोकस्यादेश धर्मः सनातनः ताः वोढुं क्षमादेवत्वामाद्य पुरुषम् परम् असङ्ख्याताण्ढरो माणं सर्वेश्वं सर्वकारणं यत्प्रभावं न जानन् विश्रुदयः सर्वदेवताः तमहं देवदेवेशं धारयामि कथं प्रभो अणोरणीयां समजं परात्परतरं प्रभुं धारयामि कथं देवत्वामहं पुरुषोत्तमम् महापादकयुक्तोऽपि यन्नाम स्मृतिमात्रतः मुच्यदेशकथं देवो ग्राम्येषु जनिमर्हति यथा स्यूकरमत्स्याद्या अवतारास्तव प्रभो तथायमपि को वेद तव विश्वेशचेष्टिदं त्वत्पादपद्मप्रणता त्वन्नाम स्मृतितत्परा त्वामेव चिन्तये देव यथेच्छासि तथा गुरु शनक उवाच तयोक्तं वचनं श्रुत्वा देवदेवो जनार्दनः दत्त्वा भयं देवमादुरितं वचनमब्रवीद श्रीभगवानुवाच सत्यमुक्तं महाभागे त्वया नास्त्यत्र संशयः तथापि शृणुवक्ष्यामि गुह्याद्गुह्यतरं शुभे रागद्वेषविहीना ये मद्भक्ता मत्परायणाः वहन्ति सततं ते मां गदासूया अदाम्बिकाः परोपतापविमुखा शिवभक्तिपरायणः मत्कथाश्रवणा सक्दा वहन्ति सततं हिमाम् पदिव्रताः परिप्राणाः परिभक्तिपरायणाः वहन्ति सततं देवि स्त्रियो वि त्यक्त प्रत्सराः मातापित्रोश्च शुश्रूषुर्गुरुभक्तोऽतिथिप्रियः हितकृद्भाष्यणानां यः स मां वहति सर्वदा पुण्यतीर्थरदा नित्यं सत्सङ्गनिरतास्तथा लोकानुग्रहशीलाश्च सततं देवहन्ति मां परोपकारविरताः परद्रव्यपराङ्मुखाः न शुंसकाः परस्त्रेषु देवहन्ति च मां सदा तुलस्युपासनारताः सदा नाम गोरक्षणपरा यशतद मां वहन्ति ते प्रतिग्रहनिवृत्तायै परान्नविमुखास्तथा अन्नोदकप्रदातारो वहन्ति सततं हि मां त्वं तु देवि पदिप्राणासाध्वी भूतहिते रदा सम्प्राप्य पुत्रभावं ते साधयिष्ये मनोरथं युत्युक्त्वा देवदेवेश्योष्यतिथिं देवमादरं दत्त्वा कण्ठगतां मालामभयं च तिरोदधे साधुसंहृष्टमनसा देवसूर्दक्षनन्दिनी प्रणम्य कमलाकान्तं पुनः स्वास्थानमाव्रजत ततोदिभिर्महाभागा सुप्रीदा लोकवन्दिदा असूदसमये पुत्रं सर्वलोकनमस्कृतं गङ्गाचक्रधरं शान्तं चन्द्रमण्डलमध्यगं सुधा कलशदध्य नकरं वामनसंनिधं सहस्त्रादित्य सङ्काश्यं व्यापोशकमलेक्षणम् सर्वभरणं संयुक्तम् पीताम्बरधरं हरिम् स्तुत्यं मुनिगणैर्युक्तं सर्वलोकैकनायकम् आविर्भूतं हरिं ज्ञात्वा कश्यपो हर्षविह्वलः प्रणम्य प्रञ्चलिर्भूत्वा स्तोदुं समुपचक्रमे कश्यप उवाच नमो नमस्ते किल नमो नमस्ते किल नमो नमस्ते मरनायकाय नमो नमो दैतेय विनाशनाय नमो नमे भक्त नमो नमो भक्तजनप्रियाय नमो नमः सज्जनरञ्जिताय नमो नमो दुर्जननाशनाय नमोऽस्तु तस्मै जगदीश्वराय नमो नमः कारणवामनाय नारायणाय मिदविक्रमाय सशार्गचक्रासिं गदाधराय नमोऽस्तु तस्मै पुरुषोत्तमाय नमः पयोराशिनिवासनाय नमोऽस्तु सधृत्कमलस्थिताय नमोऽस्तु सूर्याद्यमिदप्रभाय नमो नमः पुण्यकथागताय नमो नमोऽर्केन्दुविलोचनाय नमोस्तु ते यज्ञफलप्रदाय नमोस्तु यज्ञाङ्गविराजिताय नमोऽस्तु ते सज्जनवल्लभाय नमो जगत्कारणकारणाय नमोस्तु शब्दादिविवर्धिताय नमोऽस्तु ते दिव्यसुखप्रदाय नमो नमो भक्तमनोगदाय नमोऽस्तु ते ध्वान्दविनाशकाय नमोऽस्तु शब्दादिविवर्जिताय नमोऽस्तु ते ध्वान्दविनाशकाय मन्थरधारकाय नमोऽस्तु ते यज्ञवराहनाम्ने नमो हिरण्याक्षविदारकाय वामनरूपभाजे नमोऽस्तु क्षत्रकुलान्धकाय नमोऽस्तुते रावणमर्दनाय नमोऽस्तुते नन्दसुधाग्रजाय नमस्ते कमलाकान्तनमस्ते सुखदायिने स्मृशार्तिनाशिने तुभ्यं भूयो भूयो नमो नमः यत्विन्यासयज्ञविघ्नविनाशनयज्ञरूप यज्जद्रूप याज्या यज्ञाङ्गं त्वां यजाम्यहम् इति स्तुदस्व देवेशो वामनो लोकपावनः उवाच प्रहसन्हर्षं वर्धयन् कश्यपश्य सः श्रीभगवानुवाच ताततुष्ठोऽस्मि भद्रं ते अचिरात् साधयिष्यामि निखिलं त्वन्मनोरथम् अहं जन्मद्वयेत्वेवं युवयो पुत्रतां गदः अस्मिन् जन्मन्यपि तथा साधयाम्युत्तमं सुखं अत्रान्तरे बलिर्दैत्यो दीर्घसत्रं महामखम् आरेभे गुरुणा युक्तकाव्येन जमुनीश्वरैः तस्मिन्मकेशमाहोदो विष्णोर्लक्ष्मीसमन्वितः हविस्वीकरणार्थाय ऋषिभिर्ब्रह्मवादिभिः प्रवृद्धैश्वर्यायुर्दैत्यस्य वर्तमाने महाकृदौ आमन्त्र्य मातापितरौ स भडुर्वमनो ययौ स्मितेन मोहल्लोकम् वामनो भक्तवत्सलः हविर्भोक्तुमि वायादो बले प्रत्यक्षदो हरिः दुर्वृतो वा सुवृतो वा जडो वायं हिदोऽपि वा यो भक्तियुक्तस्तस्यान्दः सदा संनिहिदो हरिः आयान्दं वामनं दृष्ट्वा ऋषयो ज्ञानचक्षुषः ज्ञात्वा नारायणं देवमूद्ययुः सभ्यसंयुधाः ये द ज्ञात्वा दैत्यगुरुरेखान्ते बलिमब्रवीद स्वसारमविचार्यैव बलाकार्याणि कुर्वते शुक्र उवाच भो भो दैत्यपदे सौम्यक्यपहर्ता तवश्रियं श्रियं विष्णुर्वामनरूपेण ह्यदिदे पुत्रादां गतः कवाध्वरं स आयादि त्वया तस्यासुरेश्वर न किञ्चिदपि दातव्यं मन्मदं शृणुपण्डित आत्मबुद्धिसुखकरी गुरुबुद्धिर्विशेषतः परबुद्धिर्विनाशाय स्त्री बुद्धिप्रलयङ्करी शत्रॄणां हितकृद्यस्तु सहन्तव्यो विशेषतः बलिरुवाच एवं गुरो न वक्तव्यं धर्ममार्गविरोधतः यदागते स्वयं विष्णो किमस्मादधिकं वरं कुर्वन्ति विदिशो यज्ञान्विष्णुप्रीण न कारणात् स चेत्साक्षाद्धविर्भोगी मत्थकोऽभ्यधिको भुवि दरिद्रेणापि यत्किञ्चिदी यदे विष्णवे तदेव परमम् दानं दत्तम् भवति चाक्षयम् परया भक्त्या पुनादिपुरुषोत्तमः जनकेनाप्यर्चिदश्वे ददाति परमाम् गतिम् अरिर्हरति पापानि दुष्टचित्तैरपि स्मृतः पावकः जिह्वाग्रे वसदेयस्य हरित्यक्षरद्वयम् स विष्णुलोकमाप्नोति पुनरावृत्तिदुर्लभम् गोविन्देदि सदा ध्यायेद्यस्तुरागादिवर्जितः स यादिविष्णो भवनमिति प्राहुर्मनीषिणः अग्नौ वा ब्राह्मणे वापि हूयदे यद्वविर्गुरो हरिभक्र्या महाभाग तेन विष्णुप्रसीदति अहं तु हरितुष्यद्यर्थं करोम्यध्वरमुत्तमम् स्वयमायाति चेद्विष्णुकृतार्थोऽस्मिन् संशयः एवं वदति दैत्येन्द्रे विष्णुर्वामनरूपधृक प्रवीवेशाध्वरस्थानम् हुद वह्निमनोरमं तं दृष्ट्वा कोडिसूर्याघं योग्यावयवसुन्दरं वामनं सहस्रोद्धायप्रत्यगृह्णात्कृताञ्जलिः दत्त्वा सनं च प्रक्षाल्य पादौ वामनरूपिणं सकुटुम्बो वहन्मूर्ध्ना परमां मुदमावाप्तवान् जगत्धान्मे विष्णवेस्मै जगद्धान्मे दत्त्वार्घ्यम् विधिवत्कलिः रोमाञ्चिततनुर्भुत्वा हर्षाश्रुनयनोऽब्रवीद बलिरुवाच अद्य मे सफलम् जन्म अद्य मे सफलो मरवः जीवितम् सफलमेद्य कृतार्थोऽस्मिन् संशयः अमोखामृदवृष्टिर्मे समायातादिदुर्लभा त्वदागमनमात्रेण ह्यनायासो महोत्सवः येदे च ऋषयः सर्वे कृतार्थां नात्रसंशयः संशयः पूर्वं हि तपस्तप्तं तदद्य सफलं प्रभो क्रुद्धार्थोऽस्मि क्रुद्धार्थोऽस्मि कृधार्थोऽस्मि न संशयः तस्मात्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः त्वदाज्ञया त्वन्नियोगं साधयामीति मन्मनः अत्युत्साहसमयुक्तं समाज्ञापय मां प्रभो एव मूर्खो दीक्षितेन प्रहस्सन्वामनो ब्रवीद देहि मे तपश्चित्तादुं भूमिं त्रिपदसंमिताम् यदच्छ्रुत्वा बलिप्राह राज्यं व्याजितवान्नहि ग्रामं वा नगरं चापि धनं वा किं कृतं त्वया तन्निशम्य बलिं प्राह विष्णुः आसन्नभ्रष्टराज्यस्य वैराग्यं जनयन्नि वा श्रीभगवानुवाच शृणु दैत्येन्द्रवक्ष्यामि गुह्याद्गुह्यतमं परम् सर्वसङ्गविहीनानां किमर्थैः साध्य देवद अहं तु सर्वभूतानामन्तर्यामीदि भावय मयि सर्वमिदं दैत्य किमन्यै साध्यते वद रागद्वेषविहीनानां शान्दानां त्यक्मायिनां नित्यानन्दस्वरूपाणां किमन्यै साध्यते धनैः आत्मवत्सर्वभूतानि पश्यतां शान्दचेदसाम् अभिन्नमात्मनः सर्वम् दादादीयते च किम् पृथ्वीयं क्षत्रियवशा यदि शास्त्रे सुनिश्चितं तदा ज्ञायां स्थिता सर्वे लभन्ते परमं सुखम् दादव्यो मुनिभिष्टाभिषष्ठां शो भूभुजे बले महीयम् ब्राह्मणानां तु दातव्या सर्वयत्नदः भूमिदानस्यमाहात्म्यं न भूतं न भविष्यति परं निर्वाणमाप्नोति भूमिदो नात्र संशयः स्वल्पामपि महीं दत्त्वा श्रोत्रिया या हिताग्नये ब्रह्मलोकमवाप्नोति पुनरावृत्तिदुर्लभम् भूमिदः सर्वतः प्रोक्तो भूमिदो मोक्षभाग्भवेत् अधिदानं तु तज्ज्ञेयं सर्वपापप्रणाशनम् महापादकयुक्तो वा युक्तो वा सर्वपादकैः दशहस्ताम् महीं तत्वा सर्वपापैः प्रमुच्यते सत्पात्रे भूमिदाय सर्वदानफलं लभेद भूमिदानसमं नान्यत्र शुलोकेशु विद्यते द्विजाय वृत्तिहीनाय यः प्रद्यान्महीं बले तस्य पुण्यफलं वक्तुं न च दैरहम् देवपूजासु वृत्तिहीनाय दैत्यपस्वल्पामपि महीं दद्याद्य स विष्णुर्न संशयः इक्षुगो धूम तु वरी पूगवृक्षादिसंयुधा पृथ्वी प्रदीयते येन स विष्णुर्नात्र वृत्तिहीनाय विप्राय दरिद्राय कुटुम्बिने स्वल्पामपि महीं दत्त्वा विष्णुसायुज्यमान् पुयाद सक्ताय देवपूजासु विप्रायाटकिकां महीं दत्त्वा लभेदगङ्गायां त्रिरात्रस्नानजं फलम् विप्राय वृत्तिहीनाय सदाचाररताय च द्रोणिकां पृथिवीं दत्त्वा यद्फलं लभते शृणु गङ्गातीर्थाश्वमेधानां सदानि विधिवन्नरः कृत्वा यत्फलमाप्नोति तदाप्नोति स पुष्कलम् ददाधिकारिकां भूमिं दरिद्रा यद्विजा यः तस्य पुण्यं प्रवक्ष्यामि वदतो मे निशामय अश्वमेधसहस्राणि वाजपेयशतानि च विधाय जाह्नवीतीरे यद्भलं तल्लभेद्ध्रुवम् भूमि दानं महादानमधिदानं सर्वपापप्रशमनमपवर्गफलप्रदम् ब्रह्मात्मने ब्रह्मरदात्मबुद्धये नमोऽस्तु देव्यागदकर्मशीलिने परेश्य परमानन्द परमात्मन परात्परा सर्वात्मने जगन्मूर्ते प्रमाणातीत ते नमः विश्व तश्चक्षुषेतुभ्यं विश्व भाघवे नमः विश्वदशिरसे चैव विश्वतो गदये नमः एवं स्तुतो महाविष्णुर्ब्रह्माद्यै स्वर्गवौकसां दत्त्वा भयं च मुमुदे देवदेवः सनातनः विरोचनात्मजं दैत्यं पदैकार्थं भवन्तः ततः प्रपन्नं दुबलिं ज्ञात्वा चास्मै रसातलं ददौ तद्वारपालश्च भक्त वाश्यो बभूवः नारद उवाच रसातले महाविष्णोर्विरोचनसुदस्य वै किं भोज्यं कल्पयामासोरे सर्पभयाकुले शनक उवाच अमन्द्रितम् हविर्यत्तु हूयदे जाधवे दशि अपात्रे दीयते यच्च तद्धोरम् भोगसाधनम् हुदम् हविरशुचिना धृत्तम् सत्कर्म यत्कृतं तत्सर्वम् तत्र भोगार्हमधपादफलप्रदम् एवं रसातलं विष्णुर्बलये सा सुरायतु दत्वा भजं च सर्वेषां सुराणां त्रिदिवं ददौ पूज्यमानो मरगणैस्तूयमानो महर्षिभिः गन्धर्वैर्गीयमानश्च पुनर्वामनदां गदः यदद्दृष्ट्वा महत्कर्ममुनयो ब्रह्मवादिनः परस्परं स्मितमोखाः प्रणेभुः पुरुषोत्तमम् सर्वभूतात्मको विष्णुर्वामनत्वमुपा गतः मोहयन्नखिलं लोकं प्रपेदे तपस्येवनम् एवं प्रभा गंगा सा देवी गङ्गाविष्णुपदोद्भवात् सर्वपादकैः इदं तु गङ्गामाहात्म्यं यः पठे तृणुयादपि देवालये नदीतीरे सोऽश्वमेधफलं लभेद इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे गङ्गोत्पत्तिर्गङ्गामाहात्म्यं दशोध्यायः ॐ